हरि ओं श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवतमहापुराणे तृतीयस्कन्धे द्वादशोऽध्यायः राजोवाच वद यज्ञविधिम् सम्यक् देवः तस्या समन्ततः श्रुत्वा करोम ह्यं स्वामिन् यथाशक्ति ह्यन्द्रितः पूजाविधिं च मन्तां च होम द्रव्यम् असंशयम् ब्रह्मणा कृतिसङ्ख्या च दक्षिणा च तथा पुनः व्यासुवाच शृणो राजन् प्रवक्ष्यामि देव्या यज्ञम् विधानतः त्रिविधम् तु सदा ज्ञेयम् विधिदुष्टेन कर्मणा सात्विकम् राजसं चैव तामसं च तथा परम् मुनीनाम् सात्विकम् प्रोक्तम् नृपाणाम् राजसंस्मृतम् तामसं राक्षसानाम् वैज्ञानिनाम् तु गुणोज्झितम् विमुक्तानां ज्ञानमयं विस्तरात्रब्रवीमिते देशकाल तथा द्रव्यं मन्त्रा च ब्राह्मणा तथा श्रद्धा च सात्विके यत्र तं यज्ञं सात्विकं विदुः द्रव्यशुद्धि क्रियाशुद्धि मन्त्रयुद्धि च भूमिप भवेद्यदि तथा पूर्णं फलं भवति नान्यथा अन्यायोपादितेनैव ना द्रव्येण सुकृतं कृतम् न कीर्तिरिहलोके च परलोके च तत्फलम् तत्सान्ध्यायाजिते नैव कर्तव्यं सुकृतं सदा यशसे परलोकाय भवत्येव सुखायच च प्रत्यक्षं तव राजेन्द्र पाण्डवस्तु मखकृतः राजसूय कठोरः समाप्त वरदक्षिणः यत्र साक्षात् हरिकृष्णो यादवेन्द्रो महामनः ब्रह्मणा विद्याचे च भरद्वाजादे तथा कृत्वा यज्ञं सुसम्पूर्णम् मासमात्रेण पाण्डवै प्राप्तम् महत्तरम् कष्टम् वनवासश्च दारुणः पीडनञ्चैव पाञ्चाल्या तथा द्योते पराजयः वनवासो महत्कष्टम् मखजम् बलम् दासक्तञ्च विराटस्य पुटम् सर्वै महात्मभिः कीचकेन परिक्लिष्टा द्रौपदी च नाम आशीर्वादातीनाम् क्व गता शुद्धचेतसाम् भक्तिर्वा वासुदेवस्य क्व गता तत्र सङ्कटे न रक्षिता तदा बालाकेनापि द्रुपदात्मया प्राप्तकेश गृहाकाले साध्वी च बलवर्णिनी किम् अत्र चिन्तनीयम् धर्म वै धर्मवैगुण्यकारणम् केशवे सति देवैशे धर्मपुत्रै यदि युधिष्ठिरे भवितव्यामिति प्रोक्ते निष्फल स्यात् तदागमः वेदमन्त्रा तथा न्या च वितथासंशयम् साधनम् निष्फलम् सर्वमुपायाश्च निरर्थकः भवितव्यम् भवत्येव वचने प्रतिपादके आगमोऽप्यर्थवादस्य क्रिया सर्वा निरर्थकः स्वर्गार्थञ्च भो व्यर्थं वर्णधर्म च वै तथा सर्वम् प्रमाणम् व्यर्थम् स्यात् भवितव्ये कृतैर् हृ उभयञ्चापि मन्तव्यम् दयि दैवम् चोपाय एव च कृते कर्मणि चेत् सिद्धिर्विपरीता यदा भवेत् वैगुण्यम् कल्पनीयम् स्यात्राणि पण्डितमौलिभिः तत् कर्म बहुधा प्रोक्तम् विद्वद्भिः कर्मकारिभिः कर्तृभेदान् मन्त्रभेदात् द्रव्यभेदात् तथा पुनः यथा मघवता पूर्वम् विश्वरूपो वृतो गुरुः विपरीतं कृतं तेन कर्म मातृहिताय वै देव्येभ्यो दानवेभ्य स्वस्ति चुक्त्वा पुनः पुनः असुरा मातृपक्षीया कृतं तेषाञ्च रक्षणम् नैत्यां दृष्ट्वातिसम्पुष्टान् चुकोपदा शिरासि तस्य वज्रेण चित्से हरि क्रिया वैगुण्यमत्रैव कर्तृभेदाद् संशयम् नो चेत् पञ्चालराजेन रोषेणापि कृतक्रिया भारद्वाजविनाशाय पुत्रस्योत्पादनाय च तृत्यध्युम्न समुत्पन्नो वेदि मध्या च पुरातश्चरथेनापि पुत्रेष्ठिस्तु कृता यदा अपुत्रस्य सुधासस्य चत्वारि अथ क्रिया कृता युक्त्या सर्वथा भवेत् अयुक्त्या विपरीता स्यात् सर्वथा नृपसत्तमय पाण्डवानां यथा जन्ये किञ्चित् वैगुण्ययोगतये विपरीतम् फलम् प्राप्तम् निर्जिता दुरोदरे सत्यवादी तथा राजन, राजत्रो युधिष्ठिरे द्रौपदी तथा सा तथा शुभा कुद्रव्योगा वैगुण्युत्मेथवा कृता साको महाराज दुर्लभो वै मुख स्मृत वैखान समुदीना ही पिहत महामख सात्विकम् भोजनं ये वै नित्यं कुर्वन्ति तापसा न्यायार्चितञ्च वन्यञ्च तथा दृश्यं सुसंस्कृतम् पुरोडाशय परा नित्यं मन्त्रपूर्वकः श्रद्धादिकामखाराजन् सात्विकः परमा स्मृता राजसा द्रव्यबहुलाः सयूपा च सुसंस्कृतः क्षत्रियाणां विषयाञ्च स्वाभिमानाञ्च वै मखा सामसा दानवानां वै स क्रोधा मदवर्धका सामर्चा संस्कृता गुरुरामखा प्रोक्ता महात्मभिः मुनीनाम् मोक्षकामानां विरक्तानां महात्मनां मानस सुस्मृता याग सर्वसाधनसंयुतः अन्येषु सर्वयज्ञेषु किञ्चित् न्यूनं भवेदपि द्रव्येण श्रद्धया पवापि क्रियया ब्राह्मण तथा देशकाल पृथग् द्रव्य साधनैः तथा नान्यो भवति पूर्णो वै तथा भवति मानसः प्रथमम् तु कर्तव्यं कर्तव्यम् शुद्धे मनसि देहो वै शुद्ध एव न संशयः इन्द्रियार्थ तदा तस्य मखस्यासौ प्रभवेदधिकारवान् सदा सौमण्डपं कृत्वा बहुयोजनविस्तृतम्भयश्च विपुलै शक्नै यज्ञ अग्नयोऽपि तथा स्थाप्य विधिवन् मनसा किल ब्राह्मणाञ्च वरणम् तथैव प्रतिपाद्य च ब्रह्मार्थर्यु तथा ब्रह्मार होता प्रस्तोता विधिपूर्वकम् उद्घाता प्रत्या च सम्भाषान्ये विध यथाविधि पूजनीया प्रयत्नेन मनसैव द्योत्तमा प्राणोपासन तथा व्यान समानरोदान एव च पावका पञ्च एव इति स्थाप्य वेद्यां विधानतः गाहपत्य तथा प्राणोपानश्चाह्वनीयकः दक्षिणाग्नि तथा व्यान् समानश्चावसध्यकः सभ्योदानस्मृता ये ते पावकः परमोत्कटाः द्रव्यं च मनसा भाव्यम् निर्गुणम् परमम् शुचि मन एव तदा होता यजमान तथैव यज्ञाधिदेवता ब्रह्म निर्गुणम् च सनातनम् फलदा निर्गुणा शक्ति सदा निर्वेददाशिवा ब्रह्मविद्याखिलाधारा व्याप्य सर्वत्र संस्थिता तदुद्देशेन तद्द्रव्यम् हुनेत् प्राणाग्निषु द्विज पश्चाच्चित्तम् निरालम्बम् कृत्वा प्राणानपि प्रभो कुण्डलीमुखमार्गेण ब्रह्मणि शाश्वते स्वानुभूत्या स्वयम् साक्षात् स्वात्मभूताम् महेश्वरीम् समाधीनैव योगेन ध्याये चेतस्य नाकुलः सर्वभूतसमात्मानम् सर्वभूतानि चात्मनि यदा पश्यति भूतात्मा तदा पश्यति ताम् शिवाम् दृष्ट्वा सच्चिदानन्दरूपिणीम् तदा मायादिकम् सर्वम् दग्धम् भवति भूमिप प्रारब्धम् कर्म मात्रम् तु यावद्देहम् च तिष्ठति जीवन्मुक्तसदातु मृतो मोक्षम् वाप्नुयात् कृतकृत्यो भवेत् तात यो भजे जगदम्बिकाम् तस्मात् सर्वप्रयत्नेन ध्येया श्रीभुवनेश्वरी श्रोतव्या चैव मन्तव्या सजन्नेवं कृतो यज्ञो मोक्षतो नात्र शोचय अन्ये यज्ञासकामासु प्रभवन्ति क्षयोन्मुखा अग्निष्टोमेन विधिवत्सर्गकामो यजेजति वेदानुशासनं च तत् प्रवदन्ति मनीषिणः क्षीणे पुण्ये मृत्युलोकं विजन्ति च यथामति तस्मात् मानसश्रेतो यज्ञोप्यक्षय एव च न राज्ञा साधितुम् योग्यो मखो सहोजयमिच्छता पूर्वम् सर्पयज्ञ स्वयाधुना वैरम् निर्वाहितं राजन् तक्षकश्च सर्प त्वयाग्नो कोटिशपरे देवी, देवी यज्ञम् कुरुष्वाद्य वितम् विधिपूर्वकम् विष्णुना यः पूर्वं सृत्या द्यो तथा त्वं कुरु राजेन्द्रविधिं ते प्रब्रवीम्यहम् ब्रह्मणा सन्ति राजेन्द्र विधिज्ञा वेद वित्तमः देवी बीजविधानज्ञा मन्त्रमार्गविचक्षणा याचकास्ते भविष्यन्ति यजमान त्वमेव हि कृत्वा यज्ञविधानेन दत्त्वा पुण्यम् अकार्जितम् महाराज पितरं दुर्गतिं गतं पापं दुर्घटम् तथैव शापयो दोष प्राप्त पित्रा तवानघ तथापदंशे न भूभुजा अन्तकले तथा मृत्यु न भूमौ कृशकृशसंस्तरे न सङ्ग्रामे गङ्गायां स्नानदानादिवर्जितं मरणं ते पितृ तत्र सौरे दातं कृपणानि च सर्वाणि नरकस्य नृपोत्तम तत्रैकम् कारणम् तस्य न जातम् चाति दुर्लभम् यत्र यत्र सिदप्राणी ज्ञाता कालम् समागतम् साधनानामभावेऽपि यवशश्चातिसङ्गणे यदा निर्वेदमायाति मनसः निर्मलेन वै पञ्चभूतात्मको देहो मम किञ्चात्र दुःखदम् पातयताद्य यथा कामम् मुक्तो निर्गुणव्ययः नाशात्मकानि तत्त्वानि तत्र परिदेवना ब्रह्मैवाहं न संसारि सुधा मुक्तः सुधा सनातनः देहेन मम सम्बन्ध कर्मणा प्रतिपादितः तानि सर्वाणि मुक्तानि शुभानि चैत्राणि च चे। मनुष्यदेहयोगेन सुखदुःखानुसाधनात् विमुक्तो वया घोरादस्मात् संसारसङ्कटात् इत्येवं चिन्त्यमानस्तु स्नानदा न विवर्धितः मरणं चेदवाप्नोति समुच्चे जन्मदुःखतः एषा काष्ठा परा प्रोक्ता योगिनामपि दुर्लभा पिता ते नृपशा दूर् श्रुत्वा शापं रुचोदितं देहे मम कृतवान् निर्वेदम् निरोगो मम देहोऽयम् राज्यम् नियतकण्डकम् कथम् जीवाम्यम् कामम् मन्त्रज्ञानानयन्तु वै औषधम् मणिमन्त्रम् च यन्त्रम् परमकम् तथा आरोहणम् तथा सौधे कृतवान् नृपति सदा न स्नानम् न कृतम् न देव्या स्मरणम् न भूमौ चैव दैवम् मत्वा परम् तथा मग्रो मोहार्णवे वेगोरे मुतसौधेहि नाट कृत्वा पापं कदर्योगात् तापसस्यावमानजम् अवश्यमेव नरकम् वेत् आचरणैर्भवेत् तस्मात् तम् पितरं पापात् समुद्धर नृपोत्तम उवाच इति श्रुत्वा वचस्तस्य वासस्यामित तेजसः शाश्वकण्ठोऽति दुःखातो बहुवजनमे जयः धिगिदं जीवितं वेद्य जी पिता मे नरके सितः तत्करोमि यथैवाद्य स्वर्गं व्याप्त्युत्तरा सुतः इति श्रीमद्देवी भागवते महापुराणे अष्टादशशास्त्रां संहितायां तृतीयस्कन्धे अम्बायज्ञविधिवर्णनं धाम द्वादशोऽध्याय श्रीजगदम्बिकायार्पणमस्तु